ृत धृतयो निलेभिमधृता ऋतव्यम् हितेव पुत्रमभिरक्षतादिमम् आवृश्च दे वा एतद्यजमानोऽन्यभ्यान्यजोश्रुतम् निर्त्या्यत्रामपृथमयेत्यायत्राग् नृथमयेष्टन् यादाहुद्येन शमयदिनात्रिमार्च्छतिरमानो यत्तुषेदमप्रदेत्तम् मय्येन विश्वदापविश्वदापस्य त्वासञ्जहादेको हुदादेकः समसनादेकः येनः कृण्वन्तु भेदजगम् सदस्रहो वरेहण्यम् अयन् नो नभदा पुरः सफानाभिरक्षतो गृहाणामसमर्थे बहवो पुनर्ना नष्टमाकृथिः पुनर्नामाकृथि देवदर्गस्फानशास्त्रपोषस्य शिशेसनो राष्ट्रज्यानिकम् राजस्पोषकम् सुवीर्जकम् सम्वत्सरेणाति स्पस्तिम् ञ्जलिनादत्तो सर्वैष्मानरो यदाभ्यस्तकाष्टकायामपोपञ्चतुःशलापं पक्वाप्यातरे तेन कक्षमपोषं भवति यदि वा स्मयः पुराज्ञानेन दीर्घसत्रियो उपश्रष्टारमुपस्रोतारमनुक्षातारं विद्वा यजे लोकयुष्टा भूर्तेन गच्छतेऽनिर्वा उपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता धायेवं विद्वार्यममुष्णं लोकयुष्टा भूर्तेन गच्छते यन्नो नभदा पुरगित्याहाग्निर्वै नभदा पुराग्निमेव ददा एतन्मे गोपायति सत्त्वं नो नभदस्पदगित्याह वायुर्वै नभदस्पदर्वायुमेव ददा एतन्मे गोपा ेव सर्गस्थानेत्याहासौ वा आदित्यो देवः सर्गस्थानः आदित्यमेव ददाहैतन्मे गोपायेति एकय्यवानम् परिबोददामि तेन क्रीडन्तेश्चरदप्रियेण आनश्चाक्त समिषामधे नषे धे मरुताम् पिरस्तनहम् गृह्णामि अनुमन्यस्वसेदायिनामदिष्टम् देवानामिदमस्पहव्यम् देवानामेष उपनाहाम् गर्भवोषधे सुन्यक्तः सोमस्य द्रप्समभिलेतवोषाभ्यान्नभवत्वम् वत्सानाम् पदरग्ध्या नाम पितामहताम् गर्गराणाम् वत्सोगिराय प्रदृशि प्रेयोष आविक्षामस्तु प्रिमस्य नेतः ो वृणतराज्यागत्वा गृह्णवन्तमरुतः स्वर्गाः बष्पम् क्षत्रस्य घगुभिजश्रिगाणस्ततो न भुग्रो विभजावसूनिवाशुना यजधेजस्थैतानि न क्रियन्तकेश हस्ते धाता क्षत्रायभायः बृहस्पति प्रजापतये ज्योतिष्पदे हरितो गर्भो यो निर्हि अङ्गान्यः कृताय सैताम् देवैः समजीगमम् आवर्तनवर्तयनि निवर्तनवर्तयेन्द्रनर्द्रबुदा भोम् स्रस्ताभिरावर्तया पुनः पुत्रम् च विगर्भम् च जलायितास्तुवादिति पुरुद्रप्सो विश्वलोपयम् दुःपवमानो धीर आनन्दम् एकपदे द्विपदे त्रिपदे चतुष्पदे पञ्चपदे षट्पदे सप्तपद्यष्टापदे भुवना न प्रदता स्माहा यज्ञम् न हरे हरिः प्रियमिन्द्रा बृहस्पतीश्च दर्श्यते अयमम् वाम् परिषिक्षते सोम इन्द्रा बृहस्पति चुर्मदाीतये अस्मै इन्द्रा बृहस्पति हरिम् धत्तवंशलग्निनम् अश्वावन्तकम् सहस्रिणम् बृहस्पतिर्नः परिपादपश्चादो त्रयोः पुरस्ताल्खासजिभ्यो परिवस्कृणोदो कृते विष्पर्वादज्यूतादो अग्ने भामाधशु चुचयश्चरन्ति दिव्यानवग्भावना वनन्तिः ीडते विकाधिधातमम् उभातन्तकम् सुभगविश्वदर्शन्तु विष्मणम् श्रीरन्धदर्शयम् धातातु नीशानो जगतस्पतिः स नोर्णेन वावनत् धाता प्रजायापुतरा युरीशे धातेदम् विश्वम् भुपणम् च जाना धाता पुत्र यजमाना यदाता तस्मा हव्यम् कृतवत् विधेमा धाता ददातु नो रयिम् प्राचीयम् देवातुमक्षिणा अयम् देवस्य धीमहि सुमतिम् सत्यराधतः धाता ददातु दातु प्रजाकामायमेषे दुरोणे तस्मै देवामृताः संयम् ताम् विश्वे देवासो अधिनिः ्यानुपति देवेषु मन्यताम् अर्घ्यश्च ह्यवाहनो भवताम् दाशिषेमयः अन्वितमत्वम् अन्यासे सञ्चनस्कृति कर्ते दक्षायनो हि नोगुंसितारिणः अनुमन्यतामनुमन्यमाना प्रजावन्तकम् नयमक्षीयमाणम् तस्यैवजगम् रेणसिमापि भो मसानो देवी सुखवाशर्म यस्यामिदम्पूरन्त्ययवः यस्या उपस्थपुर्वम् परिक्षकुम् सानो देवी शुभवासर्म यच्छतु राकामहुम् सुभवागम् सुष्ठुते शृणोदः सुभगामोधरुत्मना श्रीव्यक्तपः स्वोच्याच्छिद्यमानगाधृदातु वेदगुम् सगताजमुख्यम् स्ते रागे सुर्दनाशिरास्तु श्रीबालिजासु वाणिः उहोभागुम् सुभगाम् विद्मनापदमस्मिनिज्ञे सुभवाम् जोहवीमि सा नो ददा दुःश्रवणम् वितृणान्तस्यास्ते देवि हविषा विधेम देवानामृतस्य पत्नी हव्यानो हस्य हविषश्चिकेतु सन्दाशिरतु ओ रुद्धयित्याह बृहस्पतिना दैवाश्च प्रजापतिना रक्षागुं शिवानेतत्पशुं सजन्ते यदेकदेवत्या भोजाह देवत्रै वैनावर्तनवर्तने ब्रह्मणैव त्याः प्रजादे प्रज एव समर्थयति व्यर्थं गच्छति पृथिवेपदं तद्यङ्गी च नयत्या हत्या वा पृथिवेद्या व्यर्थञ्चाचरिक्तञ्च शमये ष्व्यासो अनयो जगद्भो देवेण भत्यै दिनद्वेजयेभ्यन्नावज्यसोरालब्धश्च नावज्जेत् पुरस्तान्नाभ्या अन्य भेदुपरिष्टादन्यत्पुरस्तान्न प्राणमुपरिष्टादपानो यावानेव पशुस्तस्यावद्य विष्णवेषु विष्टायज्ञस्यातिरिक्त द्विःपदोष्टविष्टोऽक्त एवातिरिक्तं दधात्यतिरिक्तस्य शान्त्याष्टाप्रोद्धिरण्यं दक्षिणाष्टावत्येकानवमःष्ठितं भवत्येव यानेव यस्यैरायज्ञ प्रायश्चित्य क्रियत इष्टावधीयाम् भवति आवाय भूषशुचि उपनस्तासन्ते नियुतो विश्वमार उपोते अन्धो मद्यमयामि यस्य देवदधिषेपोः वपेयम् आगोरो कामायत्त्वा सपथेत्त्वा गिक्किडाते पुनः प्रजापतयेत् स्वाहा गिक्किडाते प्राणम् राजवेत् स्वाहा गिक्किडाते चक्षः सोर्याय स्वाहा गिक्किडाते श्व त्वम् जावापृथिवे प्रागस्वाहा गिक्किडाते वाचकुम् वचा त्वम् वशिने गच्छदेवान्त्याः सन्त यजमानस्य कामाः अजाधिरष्ठा पृथिव्याव्यं दरिक्षमुपरिष्ठस्पदिविदयबृहद्भाः तन्तज्योतिष्पदः पथोरक्षधिजाकृतान् अनुर्बणम् वयजोगुपामपामनद्भव जनजाते व्यञ्जनम् मनसो हविरति प्रजापतेर्वम् नो गात्राणान्ते गात्रभाजो भूयास्मा इमे सहास्तान्ते भागव्यभाप्ते गर्भमशन्तरम् स्वमप्राजनयदग्निरग्रसरस एतम् प्रजापतिराष्टाकपालमपश्यक्तम् निरमभत्ते नैवैनामग्ने रग्ने तस्मादप्यञ्जदेवत्यामालभमाग्नेकपालम् पुरस्तान् तस्माद्वायव्यायदिभमदधा तस्माद्या वापृथव्या यत् सोमप्राजनेन तस्मादग्ने सौमे यत् प्रजापति तस्मात् प्राजावत्या सा वादेवत्या यदि नाम सा वा गत्या मालभेदभूतिनामोभायम् वै क्षे पृष्ठा देवता वायुमेव स्मेन भागधे जेनोपधापृदेवैनं भूतिङ्गमयदिद्यावापृथिव्या मानभेद कृषमाणः पतिष्ठा कामो दिवेवस्मै पर्जन्यो वरुष दिव्यस्यामोषधो लोहन्ति त्यं भवत्यज्ञे सोमे मालभेदयः कामये तान्नवानं नादस्यामित्यग्नि नैवान्नमवरुन्धे सोमेधान्नाद्यमन्नवानैवान्नादो भवति दस्पतिर्मालभेदयेश्वरो वाचोपदितोवाचन्नवदेत्वाद्वै जलस्पति रलस्पतिलेमस्पेमभागे येनोपधावस्मिन् वाचं यः कामगेतानभिजितमभिजयेन प्रजापतिः सर्वा देवता देवताभिदेवानभिजितमभिजयति वा योपाकरोति वा यो देवेनामवरुध्यालपदागो ते त्वा कामायत्प्रेत्याह यथा यजदेवेतत्किक्किराकारं जीवन्ते वैनाकं सुभग्नलोकङ्गमयदित्या हलेवत्रे वैनाङ्गणवैरि सत्या सन्त यजमानस्य कामानित्या हैषवे कामो यजमानस्य यदनार्तमुदं गच्छति तस्मादेवमाहाचासुरयिष्ठेत्याहैष्वेवैनां लोकेष्व प्रतिष्ठापयति जीविते स्मै लोके ज्योतिर्दधाहे माने वास्मै लोकान्मदकरात्येवस्ते वैशान्तञ्जनमित्याह मानव्यो वयेत् प्रजास्तादेवाध्या कुरु देवनसौ स्वेत्याैवादेतस्यादेकमेवादेव यदा नयामभ्यो भवति यदा र्यायामभ्यस्याधत्सु वा प्रवेशने सर्वाम्प्रास्तीयान्द्रधत्सु प्रवेशने जैन्यवेशनं कुर्यात् सर्वामेव प्राष्टीयान्द्र त्तेषा वा एषात्मगानामेवावरुद्धानाम् वत्सरशतः सहस्रगादिनागृहेतिनस्त एवेतगाहम् तेषामेवेष चित्तम् चित्तिश्चाकोतम् च विज्ञानम् च मनश्च चक्फलेश्च दृशश्च पूर्णमासश्च बृहच्छन्तरम् च प्रजापतिन्द्राय कृष्णे प्रागच्छतुग्रः प्रधदाद्य सस्मै विष समनमन्दसर्वाः स्वभोपदेवासुरास्संयत्तासान्द्रः प्रजापतिमुपाधाभक्तस्माकेताञ्जान ततोऽपि देवासुराजगणयजगन्तज्जगानाम् जयत्तस्पर्धमाने नैते होदव्या जगत्तेवताम् पृथनाम् ज्ञर्भूतानामधिपतिः समाहत्मिन्द्र ज्येष्ठाना यमपृथिव्या वायुरन्तरिक्षस्यतोक्षत्राणाम् बृहस्पदर्ब्रह्मणो मित्रः सत्यानाम् वरुणोपागम् समुद्रस्तोत्यानामन्नकुम् मरुतो गणानामधिपदयस्तेमावन्तपितः स्परेव रेतदास्पदामः अस्मिन् ब्रह्मन् अस्मिन् क्षत्रे स्यामाशिष्यस्याम् पुरोधायामस्मिन् कर्मन्नस्याम् देवालै यद्यज्ञे कुर्वत रसुरा कुर्वदते देवानेतानभ्यातानाः पश्यन्तानभ्यादम्बद यद्देवानाम् कर्मासीताभ्यजतज्ञधुरानाम् कर्मणे तप्रहो भव्या रुद्धा देवश्वे देवा समस्मादभ्यातानामैश्वदेवायत् प्रजापतिर्जगान् प्रायच्छत्तस्माज्जगा प्राजापत्यायद्राप्रभृद्भिष्ट्रमाद्रा प्रभुरायो राष्ट्रभर्तन्ते देवा अभ्याताने ऋसुरानभ्यातन्वधेरजयन् राष्ट्र राष्ट्रमादर जयद्यवा अभ्यादाने रसुरानभ्यादन् वदभ्यादानामभ्यादानत्वय्यज्जगेरजयन्तज्जगानां जयत्वं यद्रा प्रभृद्भि राष्ट्रमादरद्रा प्रभृतायो राष्ट्रभर्तन्तरो देवा अभवन् पराधुरायभ्याधर्म्यं भवत्यात्मना परा भवयुवस्यश्चन्द्रमा गन्धर्वस्तश्च ोऽगम् धर्मस्तस्य दक्षिणाः शरदस्तर्विश्वमनोगम् धर्मस्तस्य सामान्यप्रसो बन्धनैलो विश्वव्यधास्य भुवनस्य पदे यस्य तव उपरिगृहादिभो स्वाद्यालयम्पम् सवेद्यकम् संवत्सरे रागस्वस्त्यम् मृत्युर्गम् धर्मस्तस्य विश्वमत्सरसु गन्धर्वस्थस्य विद्युतो मृत्युर्गम् प्रजालकृशी कामो गन्धर्वस्तस्याजगोदयन्ते ब्रह्म क्षत्रम् पार्ता इदम् ब्रह्मक्षत्रम् पाहा ष्टाः सनाभुवनस्य पदे यस्तद उपरिगृहा इह च पुरब्रह्मणे स्मये क्षत्रायच्छ <mí> राष्ट्रगामाय हो दव्या राष्ट्रम् वेदः प्रभुतो राष्ट्रेणैवास्त्रैराष्ट्रमवन्धैर् राष्ट्रमेव भवत्यात्मनयो दव्या राष्ट्रम् वेदः प्रभुतो राष्ट्रम् राष्ट्रम् प्रसवो राष्ट्रय्यक्षो भवति राष्ट्रेणैव राष्ट्रमवरुन्धैरवधिष्ठः समानाना ग्रामगामाय भव्या राष्ट्रं वेनाराष्ट्रभृत राष्ट्रकंसजाता राष्ट्रेणैवास्मै राष्ट्रकंसदाता नवरुन्ध ्राम्येव भवत्यधिरेवनेज होत्रिदेवनगेवमैता नवरुन्धे नवरुद्धा उपतिष्ठन्ते रसमोजस्कामस्य हो दव्यावोजयो वै प्रभृतवोजेवा वोजोपरुन्धवोजस्यैव भवधयो राष्ट्राभूतस्या तस्मै हो दव्याघावन्तस्तरथाश्चम्भमिति राष्ट्रमेवास्मै न्याः एतस्याकृतायश्च राष्ट्रम् न कल्पदे स्वर्धस्य दक्षिणञ्चक्रम् प्रवर्पराजु यादाहुते रेवास्य कल्पयति ताश्च कल्पमाना राष्ट्रम न कल्पते सङ्ग्रामे संयते होतव्या राष्ट्रम् वैराभृतो राष्ट्रे खलु वायच्छन्ते चे सङ्ग्रामकम् संयन्त्रे यस्य चरम् सङ्ग्रामम् प्रतिष्टमा तस्मेहव्या सरसोवाने तुन्मादयुन्मा फल वे गंधर्वा सरसोय्रातस्त साभ्यस्पे तुजोदे ्रोधाम्बराः स्वक्षयिते भवत्येते प्राणानेवस्य प्रतीज प्रतियो केन कस्तृणिरणे जगोदेवैतद्वा अस्यैलहीतण्डिनृहीत एव ्राहैद्वाजः क्रोरन्ते सभागामुत्तानोपदर्वैभुवनस्य पदः प्रजापदीनः स्यान्नाद्यमानत्र इदमहमुष्यामुष्यायन स्यान्नाद्यो हामे स्यात्तग्रस्थले वसाय ब्रह्मोदरं चतुश्शरावं भक्त्वा तस्मै होदव्या वष्णवेरास्थलं गमयति चतुश्शरावो भवति चदिक्षेण भवति मेवात्मिन्दधाुद्धरदिशधत्त्वाय सत्पुष्पाम् भवति मे धत्वाय धर्वाद आरभेयाम् प्रास्पन्त्यदिशामेव ज्योतिषजुहोति देविका गर्भवे प्रजागा वश्चन्दागम् सुवे देविका छन्दागुम् श्रीमखलु वै पुशुभया छन्दाभिरेवः प्रजास्प्रजनयरि प्रथमम् धातारम् करोति पृथिवे जनयति प्रजास्वेव प्रजातासु भुक्त्वा भाजम् तथा चेतादेव निर्पवे पशुका भश्चन्दागुम् शिवे देविच्छन्दागुम् सेव खलु वे पशुभश्चन्दोऽभिदेवः स्वै पशुन्वजनयने प्रथमम् धातारम् करोऽभिप्रैवतेन वासयत्यन्मेवा स्म अनुमतिर्मन्यते नादेका पृथिवीवाली जनयति पशूनेव प्रजाताम् कुह्वा प्रतिष्ठापयत्येतादेव निर्मते रामकामश्छन्दागम् ग्रामका श्रीम खलु वै ग्रामश्चन्दाभिदेवास्मै ग्राममोरुन्ध्रय मध्यतो धातारम् करोति मध्यतरेव मस्य रथा छन्दागम् सि खलु वा नेतन्नोपनमन्त्रिगै यज्ञः पणमरिप्रथमम् धातारङ्करो विमुखलगेवास्मै छन्दागम् सिधात्युपैणै यज्ञो नवत्येता एवन्दवेदी जानश्चन्दागम् सुबे यात्रया मालीव खलु वा नेतस्य छन्दागम् शिगगी जानमुत्तमम् धातारङ्करोत्युपरिष्टा देवास्मै छन्दाकृगश्चयातया भाण्यवरुन्ध त्येता एव नेद्यं मेधानापणेच्छन्दागं शिवे देविन्दागं सि खलुवारे चन्दोपनमन्त्रियं मेधानपनमयप्रथमं धाचारं करोतिदागं श्रीरधात्युपेन मेधानभत्येता एव दृक्तामश्चन्दागं शिवे देविन्दागं श्रुवेन्दाभिदेवः दधाति भवन्ति स्विन्द्रतोधाता रङ्गरोमधतेवेणोदधादि गायत्रे वा अनुमतिस्पृष्टु ग्राका जगदे सुरे बाल्यनष्टुपुहोर्धाताषक्षालोहरपक्षोदाकावरपक्षः कुहो रमाभास्यासिने बाले पौहोर्नवाश्च न द्वादशादित्या द्वादशाक्षरा जगति प्रजापदराष्टभ्यातापषत्कारमेतद्वे विकाः सर्वाणि च छन्दांसि सर्वाश्च देवतापषत्कारस्ता यत्सह सर्वा निर्वभेश्वरागेणम् प्रदहो द्वे प्रथमे निरुप्यधातस्तृतीयम् निर्वभेत् तथो देवोत्तरे निर्वभेत् तथेनन्न प्रदहम् तथो यस्मिकामाय निप्यन्यतमेवाभिरुपा प्नोति मा स्तोष्पदे प्रजाने यस्मान् स्वावेशो अनमेवो भवानः महे प्रजन्नो युधस्वशन्नये धुपदेशञ्जुगुष्पदे मास्तोऽष्पदे शग्मगा शकुम्सदा तेधक्षेमहिरण्मत्याः आवहः क्षेमभृदयोगेवरण्णो योगम् पादस्वस्तिभिः सदानः सायम् प्रातरज्ञहोत्याहुतेऽका एव उपधत्ते इदमानो होरात्राणि वा एतश्चेष्टकागागर्यच्छायम् प्रातज्ञोहोक्त होरात्राण्येवा चेष्टका कर्तोपधत्ते तदप्रजुो यदाक्षरा विराक् विराजमेवाेष्टका कर्त्वोपधत्तेऽ विराक् देव यज्ञमात्यस्य भवति कस्माद्योषित्वा प्रया वा स्पद्यो वाचीनरुद्रः खलु वै भास्तोष्पतिर्गलभुत्वा स्तोष्पदेयम् प्रजाया रुद्रयम्भो पतीयं जहोतिभागधेनैवेन शमयति नार्तिमार्चति प्रजा देवास्तावाहुदिं जहोति तादृगेवदजुभुयाहुदिं जहोति तादृगेवद रघुनस्य वा स्तोष्पतियज्ञस्याद्दक्षिणो युक्तो भवति दव्यो युक्तो भवातीयं जहोत्युभयमेव कर्म यत्रमेवेन तु शमयति यदेकजामङ्कुर्यात् पुनोनुक्यामनोच्चगात्रि गाजुभोजय भक्त्वा यद्भुता सद्यः ्रहाण्वारोहगेद्यदपक्षाणा यथा यज्ञवेशसंवादहनम् वा भादृगैपदयन्ते योनिर्विग्रयत्यरङ्गो यस्पगेवैनैनौ समारोहयत्यथो खल्वा हुर्यतरं जो समारोढो नश्चेतनस्याग्नश्चेदपुनराथेयस्यादिलियाते अग्ने यज्ञया तमहोष्ट त्यात्मन् समारोहयते वाग्नेयो निःवागामेव तथानो विभावा सुदृढीतो अस्मे सुकारिकपत्याः समिषोत्संयमे हि श्रंसिमहे वनस्पतिः ब्रह्मादेवानाम्प्राणाम् महिशो मृगाणाम् शयनागृद्धा नागस्पति सर्वनागुंसामः पवित्रमत्ते जले भे आ विश्वदेवकम् सत्पदेसोक्ते हत्या प्रणेमहे सत्यसमयम् सवितारम् आसत्येन रजथा वर्तमानोऽ मुखम् मर्प्यम् चिरङ्गजेन सुजाो जाति भुवना विपश्यन् यथा नो अतिक्रमस्वेदर्भ्यो इथा गवे यथा तो कायरुद्रियम् मानस्तो वेतन ये गे मानायमानो घोषमानो अश्वरुद्रभामितोऽवधेरः विष्पन्तोऽनवधा विधेवते उदः प्रजोनवयो रक्षमाणा वावदतो अभ्युयस्तेवघोषाः भ्रजो नोर्मजो वदन्तो बृहस्पतिमभ्यर्कावन्सैलिपदकिभर्वापदभ्य स्मन्मयानिनः यस्यन्ने बृहस्पतिशभिगणिकर्गास्तो दृच्छ विद्वाम् अगायन हेन्द्रिद्वानयम् सदासहम् परिषष्ठमोदये भरा प्रसदाषे पुरोहो दशत्रो ज्येष्ठश्च सुष्मैह राजस्तो इन्द्राभरक्षिणे नामसो नेपतिः सिन्धो नामसि रेमतीनाम् त्वं सुतस्य इन्द्र ज्ञेष्ठ्याय सुक्रतो भुवस्त्वमिन्द्रब्रह्मणा महान् भो विश्वे सवनेषु यज्ञिनः भोदेगश्चोत्रो विश्वस्मिन् भवे ज्येष्ठश्च मन्त्रो विश्वजैणे मित्रस्य जलणे जलदर्श्रवो देवस्य सानथिम् सत्यम् चित्रश्रवस्तमम् मित्रः कृष्ण मिढाभितष्टे सत्याय हव्यम् हृदमद्भिधेम प्रथममित्रमर्तो अस्तु प्रयस्वामि यस्त आदित्यशिक्षतिम् मतेन न हन्यते न जीयते त्वो तो नैनवगुम्भो अस्मोऽत्यन्तितो न दूरात् यत्सिद्धिते विश्व यत्किञ्चेदम् वरुण देवनेऽभिद्रोहम् मनुष्याश्च रामसि अजित्ते यत्तमधर्मा योऽभिमानस्तस्मादेन सो देवदी हितवासो यद्पुर्णदेवी यद्माथा सत्यमुदयन्न विद्मा सर्वाता विषयेव देवाथा देयस्यामवरुणप्रियासः ओ ोर्णा पश्चादुतपोर्णा पुरस्कारन्मध्यतः पोरोन्न वासीजिगाया देवासन्तमुत्तमेनागमारयन्ता यत्ते देवा अधुर्भागे ममास्ते सम्वसन्तो महित्वा सानो यज्ञम् पिबि विश्वमारेण ष्पा रूपाणि वसोम्यावेशयन्ति सहस्रपोषकम् सुभकारणासा नः कण्डा संविदाना अर्गे सोमो प्रथमो वीर्घेणवसोमृतराणा विद्या निरकिम्बदम् आध्यगम् विपोन्न मासम् विषेधाम् ब्रह्मणा वृद्धौ सुकृतेन सा तावथास्मभ्यकम् सह वीरागम् आदित्याश्चाङ्ग्यरसश्चाग्नेदादशपूर्णवासौ प्रयेक्षन्तेषामञ्जरसान्निरुक्तगम् हविरासेदसादित्याघेतौ होमावपश्यन्तावजुहवस्ततोदर्शपूर्णपादौर्वानभन्तदर्शपूर्णमासावानभमानघेतौ होमो पुरस्ताजुयः साक्षा देव दर्श पूर्णमासा बालभते ब्रह्मवादिना वदन्ति पुरस्ताजुयालमाभा स्या वै धनस्पत्यनु नाम वे वै नामालभते मुहायमानमन्वाप्यागताज्ञा वैष्टवमेकादशकपालम् पुरस्तान्यवेत् सरस्वत्यै जर्गुम् सरस्वते द्वादशकपालै भवत्यग्निर्वै यज्ञमुखै यज्ञमुखमे वर्थिम् पुरस्ताब्द्वैष्टवो वे सरस्पत्ये जलद्भवस्पदे द्वादश कपालो मा भास्यावे सरस्पते ओर्णमाधः परस्पान्नावेक्षाधान पदृद्धाप्यानाभ्याम् द्वादश कपालः सरस्पदे भवनि प्रजा तै दक्षिणा समध्यै ो वा इन्द्रम् प्रत्यक्षन्नापश्यन्तम् वजिष्ठः प्रत्यक्षमपश्यत्सोत् ब्राह्मणन्ते रक्ष्यामि यथापुरोहिताः प्रजास्प्रज निष्यन्ते समेतरे ष्ठपुरोहिता प्रजास्प्राजाय नस्माद्वाधिष्ठा ब्रह्मा कार्यप्रेवजायते रश्मधिक्षगायत्वा क्षयञ्जन्मेत्याह देवा वेक्षयो देवेऽभ्य एव यज्ञं प्राह प्रेजल धर्मा यत्त्वा धर्मञ जन्मेत्याह मनुष्या वे धर्मा मनुष्येभ्यगेव यज्ञं प्राहान्जनषिवे त्वाजिमन् जन्मेत्याहेभ्यगेव लोकेभ्यो यज्ञम् प्राहविष्टम् बालवृष्टे प्रावृष्टिम् जन्मेत्याहवृष्टिमेवावरुन्ध्य प्रवाश्च नमासेत्याहमिषिकभ्यस्तावसौ जन्मेत्याहाष्टौ वध एकादश उत्तरा द्वादशाधित्याोऽपि देवाश्चेभ्य एव यज्ञम् प्राहौ ज्योषि पितृभ्यस्तावजन्मेत्याह देवादेव मित्रेण न सन्तनो प्रजाभ्यस्ता प्रजा जिन्वेत्याः पितरेणेव प्रजामसन्तनोतिपुतनाशासि पशुभ्यस्तान्वेत्याः प्रजा एव वशो नैव्यस्तौषधे जिन्वेत्याहौषधेष्वेव वशोन्पतिष्ठापयत्रभिजरसि प्रग्रावेन्द्रायत्वेन्द्रम् जिन्वेत्याः अभिजित्या अधिपजरसि प्राणान् दधानिर्वत प्रवृतसेत्याहमिष प्राकुखौ रोहदेहो देत्याह प्रजात्यैव सुखो सुखेर सुमस्य रसेत्याह प्रतिष्ठत्याय ग्निना देवेन पृतनाजगामि गायत्रेण चन्द्रा त्रिभृता स्तोमेन साम्नामषकारेण पत्रेण पूर्वजान् भातुर्व्यानधरान् बाधगाम्येनान् बाधया प्रत्येनान् मुधेऽस्मिन् च येऽस्मिन् भूमि लोके वयम् लष्णो दृष्टाः क्रमेणात्तेनान् क्रामामीन्द्रेण पञ्चदशेन स्तोमेन बृहता साम्नाषत्कारेण वज्रेण विश्वेष्प्रतनाजयागरेण चन्द्रप्तदशेन स्तोमेन वामधेन साम्नाषत्कारेण वज्रेणाभजानेन्द्रेण श्रेयो वयनुषा घृष्ट्यामपृतज्ञतः वृत्राण्य प्रति यत्ते अग्ने तेजस्तेनाहम् तेजस्वी भूयासम् यत्ते अग्नेमत्रस्ते नाहम्वत्यस्मै भूयासम् यत्ते अग्नेहरस्ते नाहोहरस्वीभूयासम् एवायज्ञहनो यज्ञमुषः पृथिव्यामभ्यासते अग्निर्मादेभ्यो रक्षतु कक्षे वसुहतो वयम् आगन्ममित्रावरुणा वयज्ञानधात्रीणाम् भागो युवयोन्यो अस्ति आकम् गण्ठाया सुकृतस्य लोके तृतीये पृष्ठे अधिलोचने दिवः यज्ञपुषोऽन्तरिक्षेऽभ्यासते आयुर्मादेभ्यो रक्षतु यास्ते भयम् यास्तेनात्रे समिनद्देवा पृथिवी भियन्ते ग्रहेश्च सर्वैः प्रजगान्मग्रेसु मोरुहा नास्तरजागुंसे ये देवा यज्ञहनो यज्ञमुषो यज्ञध्यासते सूर्यो दातेभ्यो रक्षेप सुयम् येनेन्द्रायसमभरमयागस्युत्तमेन हविषा जातवेदः तेनाग्नेतबद्ध एवश्रेष्ठेत्येन यज्ञः नो वै देवायज्ञपुषः सन्ति तदेषो येष्पासदाददाना व्यवर्थाना यो ददा देवाय ज्ञहणः पृथिव्यामध्यासदेये अन्तरिक्षेये जेत्या हेमानेव लोकागस्थेत्वा सकृहस्तवशस्वर्गम् लोकमेत्य मवेशो मे दे जानात् देवताश्च यज्ञश्चक्रामन्त्याज्ञेयम् पञ्चकपालमुदमसारीयन्यज्ञः सर्वा देवतास्पान्तो यज्ञो देवताश्चैव यज्ञम् चावलुन्धे गायत्रो वाग्यर्गायत्र छन्दसाभ्यर्थयति गन् पञ्चकपालङ्करात्यष्टागपालः कार्याष्टाक्षरा गायत्री गायत्रार्गायप्रच्छन्द स्वेनैवन्